दान्तम् यच्च सभा मध्य आसनम् रत्नभूषितम् दृष्ट्वा कुशवृषीञ्चेमाम् शोको माम् प्रदहत्ययम् यदपश्यं सभायाम् त्वाम् तच्च राजन्न पश्यन्त्याः काशान्तिर्हृदयस्य मे या त्वाहञ्चन्दनादिग्धमपश्यम् सूर्यवर्चसम् सा त्वाम् पङ्कमलादिग्धम् दृष्ट्वा मुह्यामि भारत या त्वाहङ्कौशिकैर्वस्त्रैः शुभ्रैराच्छादितम् पुरा दृष्टवत्यस्मि राजेन्द्रः सा पश्यामि चीरिणम् यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ह्रियते ते गृहादन्नम् संस्कृतम् सार्वकामिकम् यतीनाम गृहाणान्ते तथैव गृहमेधिनाम् दीयते भोजनम् राजन्नतीव गुणवत्प्रभो सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे सर्वकामैः सुविहितैर्यदपूजयथा द्विजान् तच्च राजन्न पश्यन्त्याः काशान्तिर्हृदयस्य मे यत्ते महाराज युवानो मृष्टकुण्डलाः अभोजयन्तमिष्टान्नैः सूदाः परमसंस्कृतैः सर्वाम् स्तानद्य पश्यामि वने वन्येन जीविनः नोपशाम्यति मे मनः भीमसेनमिमम् चापि वनवासिनम्